अथ स्तोत्रम् विश्वेश्वरी जगद्धात्रीं स्थिति सौ प्रतुं तेजसः प्रभुः त्वं स्वाहा त्वं स्वधा त्वं हि भषत्कारः स्वरात्मिका सुधा त्वमक्षरे नित्ये हर्धमात्रा स्थिता नित्या यानुचार्या विशेषतः त्वमेव सन्ध्या तो ए्ट तो अहं <muchos> s so तव